श्रीमद्भागवत् महापुराणं दसंस्कन्धम् अष्टषष्टितमोऽध्यायः श्रीशोकुवाच जन्मबन्धुश्रियोन्नद्धम् अदास्ते भरतर्षभ आश्राभ्य रामं दुर्वाच्यम् असभ्याः पुरमाविशन् दृष्ट्वा कुरुणां दौषिल्यं श्रुत्वा वाच्यानि चाच्युतः अवोचत् कोपसंरब्धो दुष्प्रेक्ष्य प्रहसन्मुहो नूनं नानामदोन्नद्धा शान्तिं नेक्षन्त साधवः तेषां हि प्रसमो दण्ड प्रसूनां नूडो यता अहो यदून् संरब्धान् कृष्णं च कुपितं शनये सान्त्वयित्वाहमेतेषां समीक्षन् निहागतः तायिमे मन्दमतयकलहाभिरता कलाः तं मामवज्ञाय मुर्दुर्भाषान् माणि नो ब्रुवन् नोग्रसेन किल विभुर्भोजविष्णन्दकेश्वरः तक्रादयो लोकपाला यदायस्यादेशानुवर्तितः सधर्माक्रम्यते येन पारिजातो मनाङ्घृपः आनीय भुज्यते सो न किलाध्यासनार्हणः यस्य पादयुगं साक्षात् श्रीरूपास्तेऽखिलेश्वरी स नार्हति किल श्रीशो नरदेव परिच्छदानम् यस्याग्रिपङ्कजरजोऽखिलोकपालै मौल्युत्तमयेन्धृतमुपासिततीर्थतीर्थम् ब्रह्मा भवोऽहमपि यस्य कलाकलाया शिष्टोद्वयैवं चिरमस्य निपासनं क्व भुञ्जते कुरुभिर्दत्तं भुखन्नं विष्णय किल उपानः किल वयं स्वयं तु कुर्व शिरः अहो ऐश्वर्यमत्तानां मत्तानामेव मालिनाम् असम्बद्धा गिरो रुक्षाकसहेतानुशासिताम् अद्य निष्कौरवीं पृथ्वीं करिष्यामीत्यमर्षितः गृहीत्वा हलमुत्तस्थौ दहन्नेव जगत्त्रयं लाङ्गलाग्रहेण नगरमुद्बेदार्य गजाभयं विचकर्ष च गङ्गायां प्रहिष्यन्न मर्षितः नगरं पतत् कृष्यमाणामालोक्य कौरवा जातु सम्भ्रमाः तमेव शरणं जग्मोषकुटुम्बाजिजीविषव सलक्ष्मणं पुरस्कृत्य सामं प्राञ्जालय प्रभुं राम प्रभावं न विधामते मूढानां न कुबुद्धीनां चन्तुर्मर्हस्यति शक्त्यो दुत्पत्यप्यपयानां तमेको हेतुनिराशयः लोकान् क्रीडनकालीश क्रीडस्तस्ते वदन्ति त्वमेव मन्ये दमनन्तलीलया भूमण्डलं विभरसि सहस्रमुर्धन् अन्ते च य स्वात्मनिरुद्धविश्वशेषे द्वितीयपरिशिष्यमाण कोपस्ते किल शिक्षार्थं न द्वेषान्न च मस्तरात् दिभ्रतो भगवन्सत्त्वं स्थितिपालनतत्परः नवस्ते सर्वभूतात्मन् सर्वशक्तिधरा व्यय निष्वकर्मन्नमस्ते स्तु त्वां वयं शरणां गताः शेषोकुवाच एवं प्रपन्नैः संविघ्नैर्वेपमानाय नैर्वलः प्रसादितशुप्रसन्नो मा भैष्टेत्यभयं ददौ दुर्योधनपारिबर्षं कुञ्जरान् षष्टिहायिनान् ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् रतानां षट्सहस्राणि रोक्माणां सूर्यवर्चसां दासीनां निष्ककण्ठीनां सहस्रं द्वित्रिवशरः प्रतिगृह्यतु तत्सर्वं भगवान् सात्वतर्षभ सासुसा सस्नुसा प्रागा स प्रागासुहृद्धिरभिनन्दितः ततः प्रविष्ट स्वपुरं फलायुध समेत्य बन्धो नरुरक्तचेतस ससंस सर्वं यदपुङ्गवानां मध्ये सभायां कुरुषु सुचेष्टम् अद्यापि च पुरं चेतत्सूचयद्रामविक्रमम् समुन्नतं दक्षिणतो गङ्गायामनुदिश्यते ते श्रीमद्भागुते महापुराणे परमहंश्यां शयितायां दशमस्कन्धे उत्तरार्धे आस्तिना पुरुकर्षणरूपशङ्कर्षणविजयो नामाष्टाषष्टितमोऽध्यायः